नमो भगवते वासुदेवाय श्रीमद्भागवतमहापुराणं द्वादशस्कन्धः अथ प्रथमोऽध्यायः कलयुक्के राजवंशोका वर्णन् राजवाच प्रधामानुगते कृष्णे यद्वंशविभूषणे कस्य वंशो भवत्पृद्व्याम् एतदा चक्ष्मे मुरे योऽन्त्यपुरञ्जयो नाम भाव्यो बार्हद्रथो नृप तस्यामात्यस्तु शुनको हत्वा स्वामीनमात्मजम् प्रद्योतसंज्ञं राजानं कर्ता यत्पादकसुतः विशाखयोपस्तत्पुत्रो भविता राजकस्ततः नन्दे वर्धनस्तत्पुत्र पञ्च प्रद्योतना इमे अष्टत्रिंशोत्तरशतं भोक्ष्यन्ते पृथिवीं नृपाः शृष्णागतस्ततो भाव्य काकवर्णस्तुतः सुतः क्षेमधर्मा तस्य सुतः क्षेत्रज्ञक्षेमधर्मजः विधिसार दर्भकस्तुतो भावि दर्भकस्याजयस्मितः नन्दिवर्धन ओ आजेयो महानन्दी सुतस्ततः शिशुनागादसैवैते सश्चोत्तरशतत्रयं समाभोक्षन्ते पृथ्वीं कुरुश्रेष्ठकलौ नृपाः महानन्दी सुतो राजन् सुद्रीगर्भोद्भवो बले महापद्मपति कश्चिन्नन्दः क्षत्रविनाशके तत्पोततो नृपा भविष्यन्ति सुदृपायास्तु धार्मिकाः स एकच्छत्रां पृथिवीं मतुल्लङ्घितां तस्मासनः शासिष्यति महापद्मो द्वितीय इव भार्गवः तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाश्रुताः य इमां भोक्षयन्तीं महिं राजानश्मशतं समाह नो नन्दान् विजकस्य अभावे जगतिं मौर्या भोक्ष्यन्ति वैकलौ स एव चन्द्रगुप्तं वै द्विजोराज्येऽभिषेक्ष्यते तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः स्वयसा भविता तस्य सङ्गत श्वेशुतः शालिशूकतस्तस्य सोमशर्मा भविष्यति शतधन्वा ततस्तस्य भविता तद्भृहद्रथः मौर्याह्येते दशनिपाः सप्तत्रिंशतोत्तरम् समाभोक्ष्यन्ति प्रथमीं कलौ कुरुकुलोद्वः हत्वा बृहद्रसंमौर्यं तस्य सेनापतिकलौ पुष्यमित्रस्तु शृङ्गाह्वः स्वयं राज्यं करिष्यते। अग्निमित्रस्ततस्तस्मात् सुजेशोऽथ भविष्यति वसुमित्रो भद्रकश्च पुलिन्दो भविता ततः ततो घोषतुतस्तस्माद्द्रमिद्रो भविष्यति ततो भागवतस्तस्माद्देवभूतिरिति श्रुतः शृङ्गादर्शतिं मोक्षन्ति भूमिं वर्षशताधिकं ततः कर्णवालियं भूमिर्यास्यन् पल्पगुणा नृप शृङ्गं हत्वा देवभूतिं कर्णोमाद्यस्तु कामिनम् त्रयं करिष्यते राज्यं वशुदेवो महामतिः तस्य पुत्रस्तु भूमित्र तस्य नारायणश्रुतः नारायणस्य भविता सुशर्मानामविश्रुतः कण्वायुना इमे भूमिं चत्वारिंशज्ज पञ्च च तथा नीतेन भोक्षन्ति वर्षाणां च हत्वा काण्वं सुशर्माणं तद्भृत्यो बिम्बुषलो बले गाम्भोक्षत्यन्ध्रजातीय कञ्चित्कालमसत्तमः